श्रीहरये नमः अतः षोटसोऽध्यायः सोत उवाचां महीं महाभागवतः यथा हि बिजाद घोविता समाधिशन्विभ्र विब्र स उत्तरस्य तनयामुपयेम हिरावती जनमे जयां दीश्चतुरस्तस्याम् उत्पादयत् सुतान् अजहार अश्वमेधां स्त्रीन् गङ्गायां भूरि दक्षिणान् शराद्वथं गुरुं कृत्वा देवायत्राक्षि गोचरा निजग्राहौझसा विरक्कलिं दिग्विजये क्वचेत् नृपलिङ्गधरं शूद्रं नोमितु नम्भथ सौनक उवाच कस्य हेतोर्निजाग्राह कलिं दिग्विजये नृपः नृदेव चिह्नदृक्सूत्रगोसौ काव्यक्पदाहनद कथा महाभाग यतिकृष्णकथाश्रयम् अथ वास्यपधाम् भोज मघरन्तलिखां सथां किमन्यै असदा लाभै आयुषो यदसव्ययः क्षुद्रायुषाम् नृणामङ्घमद्यानाम् मृतमिश्चताम् इह भोगहुतो भगवान् मृत्युसामित्र कर्मणि न कश्चिन्म्रियते धाव एतदर्थं हि भगवानाहूतः परमर्षिभिः अहोमृलोके पीयते हरिलीलामृतं वचः मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वये निद्रया ह्रियते नक्तं दिवाच व्यर्थकर्मभिः सोत यदा परीक्षित् गुरुजाङ्गले शृणोत् कलिं प्रविष्टं निज चक्रवर्तिते निशं यवार्ताम् अनधिप्रियां सरासनं संयुगसौण्डि राधधे स्वलङ्कृतं श्यामधुरङ्गयोजितं रथं मृगेन्द्रध्वजम् आश्रितः पुरात् मृतो स्वसेनया दिग्विजयाय निर्गतः भद्रा स्वं केतुमालं च भारतं चोत्तरान् कुरोन् किं पुरुषादीनि वर्षाणि विजित्य जगृहे भलिं तत्र तत्रोपशृण्वानः स्वपूर्वेषां प्रगीयमानं च कृष्णमहात्म्यसूचकम् आत्मानं च परित्राथम् अश्वत्थाम्नोऽस्त्र तेजसः स्नेहं च वृष्णिपार्थानां तेषाम् भक्तिम् च केशवे तेभ्यः परमसन्तुष्टप्रीत्युज्जृम्बितलोचनः महाधनानि वासांशे धौ हारान्महामनः हा, सारध्य बारशतसेवनसख्यधौद्य वीरासनानुगमनस्तवन प्रणामान् भक्तिं करोति नृपतिः शरणारविन्दे तस्यैवं वर्तमानस्य पूर्वेषां नाधिदूरे किलाश्चर्यं यदाशी तन्निभोत मे धर्मः पदैकेन चरन् विच्छायमुपलभ्यघां पृच्छति स्माश्रुवधनां विवत्सामिव मातरं धर्म उवाच कच्चिद्भद्रेणामयम् आत्मनस्ते विच्छाया सिम्लायते षण्मुखेन आलक्षये भवति मन्तराधिं धूरे बन्धुं शोषसि कञ्चनाम्भ आधेर्न्योनं सोससि मैकपाधम् आत्मानं वा वृषलैर्भोक्ष्यमाणम् आहोसुराधीन्कृतयज्ञभागान् प्रजाभुतस्मिन्महवत्य वर्षते अरक्ष्यमाणा स्त्रिय उर्विबालान् सोच्छस्यतो पुरुषाधैरिवार्तान् वाचं देवीं अब्रह्मण्ये राजकुले कुलाज्ञान् किं क्षत्रबन्धून् कलिनो उपसृष्टान् राष्ट्राणि वा तैः अवरोपितानि इतस्ततो वासनपानवासक् स्नानव्यायोन्मुखजीवलोकं यद्वाम्भते भूरिभरावतार कृतावतारस्य हरेर्धरित्रे अन्तर्हितस्य स्मरति विसृष्टा कर्माणि निर्वाणविलम्बितानि इदं ममा चश्वधवाधिमूलं वसुन्धरे येन विकर्सिदासे कालेन वा ते बलिनाम्बलीयसा सुरार्चितं किं कृतमम्भसौभगं धरण्युवाच भवान् कि वेद तत् सर्वं यन्मां धर्मानुपृच्छसेत् चतुर्भिर्वर्तसे येन पाधैर्लोकसुखावकैः सत्यं शौचं दया शान्तिस्थायाघ सन्तोष आर्जवम् समोदमस्तपः साम्यं ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः स्वातन्त्र्यम् कौशलम् कान्ते धैर्यम् मार्धवमेव च प्रागल्भ्यम् प्रश्रयःशीलं सहवोजो बलं भगः गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर्मनो नहङ्कृतिः एते चाङ्गे च भगवन्नित्या यत्र महागुणाः प्रार्थ्या महत्वमिच्छद्भिर्न वियन्ति स्म कर्हि चेत् तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रथं सोषामि रहितं लोकं पाप्मना कलिनेक्षितम् आत्मानं चानुसोषामि भवन्तं शामरोत्तमं देवान् पितॄन् ऋषीन् साधोन् सर्वान् वर्णास्तथाश्रमान् ब्रह्माधयो बहुतितं यदपाङ्घमोक्ष कामास्तपश्च रन् भगवत्प्रपन्नाः सा स्ववासं स्ववासम् अरविन्दवनं विहाय यत्पादसौभगमलं भजते नोरक्ता तस्याहम् अब्जकुलिसाङ्कुशकेतुकेतैः श्रीमत्पथैर्भगवतः समलङ्कृधाङ्गे त्रिनत्यरोचमुपलभ्य ततो विभूतिं लोकान् समां व्यसृजत् उत्स्मय तदन्ते यो वै ममादिभरम् आसुरवं स राज्ञा अक्षौहिणी सतम् त्वां दुस्तमो पदमात्मनि पौरुषेण सम्बाधयन् यदुशुरं यम् अभिप्रदङ्घं का वा सहेतविरहं मस्य प्रेमावलोकरुचिरस्मितवल्गु जल्भ्यैः स्थैर्यं समानम् अहरन्मधुमानिनीना रोमोत्सवो मम यदङ्क्रिबिडङ्किदायाः तयोरेपं कथयथोः पृथ्वीधर्मयोस्तधा परीक्षिन्नाम प्राप्तप्राचीं सरस्वती इति श्रीमद्भागवते महापुराणे प्रथमस्कन्ते पृथ्वीधर्मसंवातो नाम षोटसोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुमहराजिकी जय